अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमस्य यज्ञश्च स्वाध्यायस्तप आर्जवम् अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनं दयाभूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् तेजः क्षमाधृतिः शौचम् अद्रोहो नातिमानिता भवन्ति सम्पदं दैवीम् अभिजातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानं चाभिजातस्य पार्थसम्पदमासुरी दैवीसम्पद्विमोक्षाय दैवी मता मासु च सम्पदं दैवी अभिजातोऽसि पाण्डव द्वौ भूतसर्गो लोकेऽस्मिन् दवासुर एव दैवो विस्तरशप्रोक्त आसुरं पार्थमेषृणु प्रवृत्तिं च निवृत्तिं च जनानविदुरासुराः न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् अपरस्परसम्भूतं किमन्यत् कामहैतुकम् एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः प्रभवन्त्युग्रकर्माणः क्षयाय जगतोहिताः काममाश्रित्य दुष्ट दम्भमानमदान्विताः मोहागृहीत्वा सग्रान् प्रवर्तन्ते शुचिव्रताः चिन्तामपरिमेयां च प्रलयान् तामुपाश्रिता कामुपभोगपरमा एतावदिति निश्चिताः आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ईगन्ते कामभोगार्थं अन्यायेनार्थसञ्चयान् इदमद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् इदमस्तीदमपि मे भविष्यति पुनर्धनम् सौमया हतः शत्रुः हनिष्ये चापरानपि ईश्वरोऽमघं भोरि सिद्धोऽघं बलवान् सुखी आढ्योऽभिजनवानस्मि कोन्योऽस्ति सदृशोमय यक्ष्ये दास्यामि मोदिश्य इत्यज्ञानविमोहिता अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरकेषु च आत्मसम्भावितास्तब्धाः धनमानमदाङ्गिताः यजन्ते नाम यज्ञैस्ते दम्भेना विधिपूर्वकम् अहंकारं बलं दर्पं कामं क्रोधं च संश्रुतः मामात्मपरदेशु तद्विशन्तोऽभ्यसूयता तानहं द्विशतः क्रूरान् संसारेषु न राधमान् क्षिपां यजस्रमशुभान् आसुरीष्वेव योनिषु आसुरीं योनिमापन्नात् मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्ध्यतमां गतिं त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामक्रोधस्तथा लोभः तस्मादेतत्त्रयं त्यजेत् एतैर्विमुक्तः कौन्तेय तमुद्वारैस्त्रिभिर्मरः आचरत्यात्मनः श्रेयः ततो याति परां गतिम् यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न सिद्धिमवाप्नोति न सुखं न परां गतिं तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे देवासुरसम्पद्विभागयोगो